श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध षष्ठोऽध्यायः साकल्यस्तवां तु पञ्चधाव्यस्य संहितां वास्य मद्गलसारीयगोकल्यशिशिरे स्वधात् जातु कर्ण्यस्य तस्य स निरुक्तां सुहिताम् बलाकपैर्जवैतारविरजेभ्यो ददौ मुनिः भास्कले प्रतिशाखाभ्यो बालकल्याख्यसंहितां चक्रे बालाय निर्भज्य कासारस्यैव तां दधो विभृता संहिता चेता एभिर्ब्रह्मर्षभिद्धताः सद्वैतच्छन्दसां यासं सर्वपापैः प्रमुच्यते वै सम्पायनशिष्य वै चर्काध्वर्यवोभवन् यच्चेरुर्ब्रह्मत्याङ्घपलम् स्वगुरोर्व्रतम् याज्ञवल्कस्य तस्य आहाहो भगवन्क्रियत चरितेनाल्पसाराणाम् चरिस्तेऽहं सुदुश्चरम् इत्युक्तो गुरुरभ्याह कुपितो या शिलम् विप्रावमन्त्राशिष्येन मदधीतं तजास्विती देवरात्सुतसोऽपि छरं दित्वा यजुषां गणं ततो गतोऽथमुनियोदधिसूस्तान् यजुर्गणान् यजन्सी तिरा भूत्वा तल्लोरूपतया ददतुः तैत्तिरीया इति यजुशाखा शाखा पेशलाः याज्ञवल्कस्ततो ब्रह्मन् छन्दास्यधिगवेषयन् गुरोरविद्यमानादे सोपतस्थैर्कमेश्वरं याज्ञवल्क उवाच ॐ नमो भगवते आदित्याय अखिलजगताम् आत्मस्वरूपेण कालस्वरूपेण चतुर्विधभूतानि कायानाम् ब्रह्मादिस्तम्भपर्यन्तानाम् अन्तर्षदिशो बहिरपि चाकाश इवोपाधीनाव्यवधीयमारो भवानेक एव निवेशावयव। पचित नापां मादानं विसर्गाभ्याम् इमां लोकयात्रामनुवहति यदोह भाव विबुधुं विबुधर्षभ तविरतं तन्तनुश्रवण महरहरां नायं विधिनोपतिष्ठमानानाम् अखिलदुरितं विधिनबीजावभर्जनं भगवत समभि धीमहि तपनमण्डलं या इह वा स्थिरचरन्निकराणाम् निजनिकेतनानां मन इन्द्रिया सुरगणानान्ननात्मनः स्वयमात्मान्तर्यामि प्रचोदयति य एवं जगर ग्रहगिलितं जगरग्रहगिरितं वितकमिव विचेतनम् अवलोक्यानुकम्पया परमकारुणिक इच्छयैवोत्थाप्याहर हरन्द्रनुसवनं श्रेयसे स्वधर्माख्यात् माम्बस्थाने प्रवर्तय त्वं च वर्णिनिपतिरिवासाधूनां परितम् आशापालयेस्तत्र तत्र कमलकोशाञ्जलिभिनृपहितार्हणः अथ भगवस्तव चरणनलिनयुगलं त्रिभुवनगुरुर्भिर्वन्दितम् अहमायातयामि जजुकाम उपसरामि ते श्रोत्वाच एवं सुतश भगवान् वाजिरूपधरो हरि यजंशयाति यामादिमुनियेदात्प्रसादितः यदुर्भिरकचरोच्छाखां दशपञ्चशतैर्विभू जगृहुर्वाजसन्न्यस्ताकाणमाध्यन्दिनादयः जैमिने सामगस्यासीत् स्तनयो मुनिः सुण्मासु तस्तु तस्ताभ्याम् एकैकां प्राहसंहितां सुकर्मा चापि तत्सिस्य सामवेदतरोर्मन् सहस्रसहिताभेदं चक्रेशाम्नां ततो द्विजः हिरञ्जनाभकौसल्य पोष्यन्त्यस्य सुकर्मणः शिष्यौ जगृह्यतुष्टाण्डवो ब्रह्मवित्तमः उदित्या सामगाशिष्या आसन् पञ्चशतानि वै पौसन्द्या वद्ययोशापि तान् स प्राश्चान् प्रचक्षते लोगाखिर्मार्गलीकुल्यङ्कुसीदकुक्षिरेव च पौस्य जगृहोसंहिता से सतं सतं कृतो हिरण्यनाभस्य चतुर्विंशतिसंहिताः शिष्यवूचेश्वशिष्येभ्य शेषा आवन्त्य आत्मवान् इति श्रीमद्भागवते महापुराणे पारं चां चयितायां द्वादशस्कन्धे वेदशाखा प्रणयनं नाम षष्ठोऽध्याय